मार्कण्डेय पुराणम् अध्यायं सिक्स्टिफोर् मार्कण्डेय उवाच एवं विमुक्तरोगातु तु कन्यकातं मुदान्विता स्वरोचिषमुवाचेदं शृणुष्वचनं प्रभो मन्दारविद्याधरजा नाम्नाख्यादा विभावरी उपकारिन् स्वमात्मानं प्रयच्छामि प्रतीच्छ मां विद्याञ्जतुभ्यं दास्यामि सर्वभूतरुतानि च ययाभिव्यक्तिमेष्यन्ति प्रसादपुरगो भव मार्कण्डेय उवाच एवमस्त्विदि तेनोक्ते धर्मज्ञेन स्वरोचिषा द्वितीया दुक्तदा कन्या इदं वचनमब्रवीद कुमारब्रह्मचार्यासीत् पारो नाम पिता मम ब्रह्मर्षित्सुमहाभागो वेदवेदाङ्गपारगः तस्य पुंस्कोकिलापरमणीये मधौ पुरा आ जगामाप्सराभ्यासं प्रख्यादा कुञ्जिकास्तना कामवक्तव्यदां निदस्स तदा मुनिपुङ्गवः तत्संयोगेहमुत्पन्ना तस्यामत्र महाचले विहाय मां गदा सा च मादास्मिन्निर्जने वने बालामेकां महीपृष्ठे व्यालश्वापदसङ्कुले तदकलाभिः वर्धन्तीभिरहकक्षये आप्यायमानाहरः वृद्धिं यादास्मि सप्तम तथा कलावदित्येदन्मम नाम महात्मना गृहीताह्यकृतं पित्रा गन्धर्वेण शुभानना न दत्ताहं तदा तेन त्याजितेन महात्मना देवारिणालिना सुप्तस्तदो मे कादिदः पिता तदोकमधिनिर्वेदधात्मव्यापादनोद्यदा निवारिदा शम्भुपत्न्या सत्या सत्यप्रदिश्रवा मा शुच शुभ्रुभर्ता ते महाभागो भविष्य स्वरोचिर्नाम पुत्र मनुस्तस्य भविष्य आजाच निधय सर्वे क्य धृताल दिख प्रदा चे शुभे यस्या वत्से प्रभावेण विद्यायास्तां गृहाण मे पत्मिनी नाम विद्येयं महापद्माभिपूजिता इत्याह मां दक्षसुता सती सत्यपरायणा स्वरोचिस्त्वं ध्रुवं देवी नान्यधासा सा वदिष्यति काकं प्राणप्रदायाद्य तां विद्यां स्वं तथा वपुः प्रयच्छामि प्रदीक्ष त्वं प्रसाद सुमुखो ममार्कण्डेय उवाच एवमस्त्विधि तामाह सतुकन्यां कलावतीं विभावर्याकलावत्या स्निग्ध दृष्ट्यानुमोदितः जग्राह च ततःपाणि स तयोरमरद्वितिः न दत्सु देवतूर्येषु नृत्यन्तिष्वप्सरःसु च इति श्रीमार्कण्डेयपुराणे स्वारोचिषे मन्वन्तरे चतुष्षष्टितमोऽध्यायः Om